श्रीमद्भागवतमहापुराणं दशमस्कन्ध षष्ठोऽध्यायः गोप्यसंस्पृष्टसलला अङ्गेषु करयो पृथक् न स्यात्मन्यथ बालस्य बीजन्यासमकुर्वत अव्याजोघ्रीमणिमान् तव जान्वथोरो यज्ञोचितः कटितटं जथनं हयास्य यत्केशवस्तद्दुर्ैश्वईश इनस्तु कण्ठं विष्णुर्भुजं मुखमुरो क्रम ईश्वरकम् चक्रग्रतः शह गतो हरिरस्तु पश्चात् त्वत्पार्श्वयोर्धनृसे मधुहाजनश्च कोणेषु शङ्ख गुरुगाय उपर्युपेन्द्र तार्क्ष्यक्षितौ निन्द्र्याणी सचिकेतप्राणान्नारायणोऽवतु श्वेतदीपपतिश्चित्तं मनोयोगेश्वरोऽवतु प्रश्नेगर्भस्तु ते बुद्धिम् आत्मानं भगवान् पर क्रीडन्तं पातु गोविन्दशयानं पातु माधवः व्रजन्तम् अभ्याद वैकुण्ठ आसीनं त्वां भुञ्जानं जग्भुक्पातु सर्वगृहभयङ्करः डाकिन्यो यातु धान्यश्च कुस्माण्डायेर्भग्रहाः भूतप्रेतापि सा चाश्च यक्षरक्षो विनायकाः कोटरारेवतीजेशा पूतनामातृकादय उन्मादाये ह्यपस्मारा देहप्राणेन्द्रियध्रुव स्वप्नदृष्टा महोत्पाता वृद्धपालग्रहाशये तर्विश्यन्तु ते विष्णो नाम ग्रहणभैरवः शिशो उवाच इति प्रणयबद्धाभिर्गोपीभिः कृतलक्षणं पायत्वासनं माता संयवेशेदात्मजं तावन्नन्दादयो गोपा मथुराया व्रजं गताः विलोक्य पूतनादेहं बभूवो रतिविस्मिताः नूनं संजातो सञ्जातो योगे सो वा समासत स एव तिष्ठो युत्पातो यदा हानकुन्दुभि कलेवरं परशुभिः छित्त्वा तत्ते वृजौकस दूरे क्षिप्त्वा वयवशो न्यदहन् काशधितिष्ठितम् दयमानस्य देहस्य धूमश्च गुरुशौरभ उत्थितकृष्णनिर्भुक्तशपद्या हतपाप्मनः पूतनालोकमालग्ने राक्षसी रुधिरासना जिङ्घाशयापि हरिस्तनम् दत्वाप सद्गतिं किं भक्त्या कृष्णाय परमात्मने यच्छन् प्रियतमम् किं नो रक्तास्तन्मातरो यथा तद्भ्यां भक्तस्थाभ्याम् द््याभ्यां लोकवन्दितैः अङ्गम् यस्या समाक्रम्य भगवान् पिबत् स्नम् यातु अवाप जननी गतिम् किं गावो न मातरः तयांसि यासामपि बन् पुत्रस्नेहस्तुतानिलम् भगवान् देवकी पुत्र तासाम तासामविरतं कृष्णे कुर्वतीनां श्रुतेक्षणं न पुनः कल्पते राजन् संसारो ज्ञानसम्भवः कटधूमस्य सौरभ्यम् अवघ्राय वृजौ कुश किमिदं कुत एवेति वदन्तो व्रजमाययुः ते तत्र वर्णितं गोपैपूतनागमनादिकं श्रुत्वा तन्निधनं स्वस्ति सुशोचासन सुविस्मृताः नन्दस्वपुत्रमादाय प्रीत्यागतमुदारथी मद्योपाघ्राय परमाम्बुदं लेभो कुरु द्वः ज्ञायेतत्पूतना मोक्षं कृष्णस्यार्भकक्रमोद्भुतं तृणया श्रद्धयामरतो गोविन्दे लवते रतिम् इति श्रीमद्भागवती महापुराणे पारभंशां चैतायां दशमस्कन्धे पूर्वार्धे षष्ठोऽध्याय